श्रीकरये नमः अतये एकोनविंशोऽध्यायः श्रीशुकबुवाचा क्रीडासक्तेषु गोपेषु तद्गावो स्वैरं चरन्त्यो विविशो तृणलोभेन गह्वरम् अजागावोमकिष्यश्च निर्विशन्त्यो वनाध्वनम् ईशीकाटवीं निर्विविशुः ग्रन्थन्त्यो धावदर्शिताः ते पश्यन्त पशुन् गोपा कृष्णरामाधयस्तधा जातानुतापान विचिन्वन्तोकघवां गतिं तृणैस्ततः कुरधश्चिन्नैर्घोष्भतैरङ्कितैर्गवां मार्गम् अन्वगमन् सर्वे नष्टा जीव्यो विचेतसः मुञ्जाटव्यां भ्रष्टमार्गं ग्रन्थमानं स्वघोतनं सम्प्राप्य तस्ते सं न्यवर्धयन् त आहुता भगवता मेकगम्भीरया गिरा स्वनाम्नां निनदं श्रुत्वा प्रतिनेतुप्रकर्षिताः ततः समन्तात्मनधूमकेतोर्यद्रुश्चया भूक्षय विलेलिहा नस्थिरजङ्गमान् महान् तमापतन्तं परितोधवाग्निं गोपाश्च गाव प्रसमीक्ष भीताः ऊचुषस्य कृष्णकृष्णमहावीर हे धावाग्निना दह्यमानां प्रपन्नां स्त्रातुमर्हतः नूनं त्वद्भान्तव कृष्ण न चार्हन्ति अवसीदितुं वयं कि सर्वधर्मज्ञास्त्वत्परायणाः श्रीसुकौवाच पचो निशम्यक्कृपणं भक्तूनां बखवान् हरिः निमीलयतमा वैष्ट लोचना नित्यभाषत तथेति भगवानग्निमुल्भणं पीत्वा मुखेन तान् कृश्रात् योगाधीशो व्यमोचयत् ततश्च तेक्ष्णीर्युन्मील्य पुनर्भाण्डीरमापितः निशाम्य विस्मिता आसन्नात्मानं गाश्च मोचिताः कृष्णस्य योगवीर्यं तत्योगमायानुभावितं दावाग्ने आत्मनक्षेमं वीक्षते मे निरेमरं गा सन्निवर्त्यसायाग्ने स जनार्दनः वेणं विरणयन् गोष्ठम् अगाद्गोपयभिष्टुतः गोपीनां परमानन्द आसीत् गोविन्ददर्शने क्षणं युगसतमिभ यासां येन विना भवेत् इति श्रीमद्भगवते महापुराणे दशमस्कन्धे पूर्वार्ते धावाग्निपानं नाम एको एकोनविंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराजकी जय